मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टि त्रि मत्सरासुरविचारणम् श्रीगणेशाय नमः मुद्गल उवाच एवमुक्त्वासुरान्विप्रान् सस्मारबलमुत्कटम् तस्य स्मरणमात्रेण प्रादुर्भूता गणाः प्रभोः प्रमोदामोदकाद्याश्च वक्रतुण्डा गजाननाः चतुर्बाहुधरा सर्वे नाना शस्त्रास्त्रपाणयः के जिन्मूषकवाहनाः के जिन्मयूरमारूढा शेषारूढास्तथा परे अश्वारूठास्तथान्ये च मुकुटै सुविराजिताः कडखैः कुण्डलैश्चैव नानाभूषणराजिताः भयङ्कराश्च शत्रूणाम् भक्तेभ्यः सुखदायकाः महात्मानो महाशब्दा ब्रह्माण्डस्फोटकारकाः नानाक्रीडासमायुक्ता सदा स्वानन्दभाविताः गणेशनाममाहात्म्यं कथयन्तः परस्परं वक्रतुण्डं नमस्कृत्य स्थिता प्राञ्जलयो भवन् आज्ञां कुरु गणाध्यक्ष करवामस्तवेप्सितम् अस्माकं स्मरणं देवकिमर्थं किमर्थं कृदमादराद दासान् त्वदीयपादस्य करिष्यामोऽखिलाञ्जनान् तेषां वजनमाकर्ण्यवक्रतुण्डः उवाच तान्महाभागान्मेकगम्भीरनिस्वनः वक्रतुण्ड उवाच शृणुध्वं मोदकाद्याश्च मत्सरा सुरदैत्यपम् हनिष्यामि महावीर्यं तेन युद्धं भविष्यति अधुना दारुणं तत्र मया सह महाबलाः एतदर्थं विशेषेण स्मरणं भवतां कृतं वक्रतुण्डव च श्रुत्वा सर्वे हर्षसमन्विताः गणाऊजुप्रणम्ययिनं निबग्धकरसम्पुटाः गणाऊजुः स्वामिन् वदसि यत्सर्वं तदाश्चर्यमयं बहु मत्सरासुरनाशश्च ये केन क्रियते अधुना त्वत्प्रसादात् सदा सर्वं सुलभं नो गणाधिप आज्ञां कुरु महाभाग पश्यच्चैकश्यपौरुषं गणानां तद्वजोरम्यं श्रुत्वा प्राह गणाधिपः वक्रतुण्डप्रसन्नात्मा हर्षयन् सकलानिव वक्रतुण्ड उवाच भवद्भिः कथितं सर्वं तत्तधान तदन्यथा क्रीडार्थं निर्मिदो दैत्यो मया मायाप्रभावदः यदि क्षणेन तं दैत्यम् नाशयामि प्रभावतः तदा क्रीडा कथं देवा मया प्रक्रियते दे परा अधस्तेन महाभागा युध्यध्वं मम सन्निधौ अष्टावरणहीनेन हन्विरूपेण तं क्षणाद इति तस्य वच श्रुत्वा गणा हर्षसमन्विताः जगर्जुर्णादयन्तस्ते दिशो विदिश एव च तद्दृष्ट्वा परमाश्चर्यं विस्मितास्ते सुरर्षयः हर्षेण महदा युक्ता मे मत्सरं हतम् तद जनान् देवान् मुनीनपि वक्रतुण्डो ययौतां च पुरीमीक्ष्याह्वयां परां यत्र राज्यं च कुरुते मत्सरसप्रतापवान् ब्रह्माण्डस्य महावीरो नानां देवाङ्गनापरिवृदसदा तिष्ठति दैत्यपहमद्यादिपानसंयुक्तो नाना वीरपालितः यद्यन्मनसि तेनापि चिन्तितं सफलं सदा तत्तद्भवति सर्वं स्म तपसा वरदानतः न बुबोधगतं कालं काले नैव च वञ्चितः धन्योऽहं मन्यमानो न मत्समो मानसे परः यकस्मिन् दिवसे तत्र सभायां संस्थितो भवद वीर्यैपरिवृतो नानानृत्यं पश्यन् विनोदः तत्रा काश्चात्तदवाणी बभूव भयदायिका आगतो मत्सरं हन्तुं वक्रतुंडो महाबलः श्रुत्वा काश्य भवां वाणीं मूर्च्छितो मत्सरा सुरः पदितशुष्ककण्ठश्च कम्बमानाङ्गविह्वलः तं तथा पतितं दृष्ट्वा सुरा सर्वे भयातुराः केनोक्तं परुषं वाक्यं हन्मस्तं त्वद्यनिश्चितं तदके जिन्नभो मार्गे बभ्रमुर्यत्र तत्र ते न तत्रापि सभायां पुनराययुः सर्वै स दैत्यस्य सावधानो यथा पुरा उपविष्टः सभामध्ये हृदयेन विदूयत उवाच हि स्वतो वाचं मत्सरो भयविह्वलः वचनं किमिदं सत्यमनृतं वा भविष्यदि कालस्य कालरूपोऽहं मम मृत्युकथं भवेत् असत्या नभसो वाणी न ज्ञाता न श्रुतापि च अष्टावरणसंयुक्तं ब्रह्माण्डं सर्वमञ्जसा अष्टावरणयुक्तेभ्यो मम मृत्युर्न जायते कोऽसौ वक्राननो जन्धुकदिध कुत्र वर्तते तं हनिष्यामि दृश्यश्चेत्क्षणमात्रान्न संशयः इति श्रुत्वा वचस्तस्य मत्सरस्य दुरात्मनः ऊचुः प्रह्लादमुख्यास्तं विनयेन समन्विताः प्रह्लादादय ऊचुः महाभाग गुरुष्वमहाभागचिन्तां शत्रुनिशुदन तव मृत्युकथं भावी पश्चात्सूर्योदय कथम् अस्माकं शत्रुभावेन स्थिदा सहेश्वराः जितास्तदपि सर्वेते ते छिद्रदर्शिन एव च तैश्च माया कृता च स्यादीदृशी वासुरोत्तम अन्यथा ते महामृद्युः कथं सहेश्वरान् हनिश्यामोद्यदैत्येशुहीनास्तदा वयं तेषां वचनमाकर्ण्य मत्सरश्चैव हर्षितः सत्यमुक्तं भवद्भिर्यद् गन्तव्यं विद्विषां वधे मत्सराज्ञां समादाय निःसृदा दैत्यपुङ्गवाह विचिन्वन्ति सर्वत्र देवान् सर्वान् प्रयत्नतः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरविचारणं नाम त्रयस्त्रिंशोऽध्यायः ओम्